अथ तृतीयाष्टके षष्टः प्रश्नः प्रारम्भः अञ्जनम् दृत्वा मद्धरे देवयन्तः मधुनादैव्येन माधुरस्या उपस्थेश्वमनस्पदे अस्मिन्पृथिव्या अधि समिति नीयमानः प्रचोधा विज्ञवाहसे स्मित्यमाणः पुरस्तारम् हारे अस्मदृसमानः स्वम् हते सौभगाय ओध्वूषणभूतये तिष्ठा देवो न सविता ऊध्वाजस्य सनिधायिदन्दिभिः आगर्तिर्विश्वयामहे ओध्वानः बाह्यगुंहसोनिकेतनाः समत्रिनन्दः जीवसे जातो जायते समर्या नीषा देवया विप्रवृदयवासाः श्रेयान् भवति जायमानः कवयवन्मयन्ती स्वाधियो मनसा देवयन्तः अग्निर्यज्ञस्य मोदये त्वम् वरुणमुदमित्रो त्वाम् वर्धन्ति मतिभिर्वसिष्ठाः त्वे वसुसुषणानि सन्धोबादस्वस्यभिः सदानः होदायक्षलग्निगो समिधामस्य प्रश्नन्दिव इडस्पते होतायक्षत्रपादमेवर्भम् देवेभ्यो देवयानाम्प्रणेत्रम् शक्ति वाहिन्यैश्चन्द्रैवेता यक्षदग्नि देवो देवागुमावक्षोतोवाणमूरः उपेमञ्ज्ञमुपेमान् देवो देवहो दिममुच्यस्य हो दर्यज होतायक्षत्वरिः स्वष्ट रीमोऽर्णम् वृदा अस्मिन् यज्ञेऽपि च प्रजप्रददागस्वादस्थम् देवेभ्यः एमेन सत्यवसवोर्ग्राहारासदन्तप्रियमिन्दस्याे त्वाच्यस्य हो दर्यज होदायक्षत्वरा अश्वार्थकोषधामनीरदाता भृत्यः काम्यपक्षोऽभिश्रयन्दाम् अस्मिन् यज्ञे विश्रयन्तामृतामृता विजन्वाजस्य बृहती सुपेशपदिव्योयानिम् गृह्वानेयमाने इन्द्रेण देवीरेदम् बरिहसीदताम् गीतामाज्यस्य हो धर्यज होदायक्षद्दैव्या होतारा मन्द्राहोतारागवीप्रजयसा ेवम् देवि देवेषु धत्ताम् गीतामाद्यस्य होता यक्षत्यस्र देवी रमसामपस्तमाच्छिद्रमध्येदमपस्तन्वताम् देवेभ्यो देवेभ्येवोपविजन्दास्य होतायक्षत्ष्टा रमजिष्टमपायशोधाम् मकामकर्षिणकोंसपोषः कोषे स्यात् वाद्यस्य हो तर्यजा होतायक्षनस्पतिमपा जोष्टारं देवो देवेभ्यो हव्या वाट्वेद्वाचर्यजा होतायक्षरग्निक स्वाहास्य स्वाहा मेधर स्वाहा स्वाहा स्वाहा हव्यसोपीनाम् स्वाहान् स्वाहात्राद्यस्य समिद्धत्यमनुषो द्रोणे देवो देवान् आचवः मित्रमः कविरसप्रजेदाः अनो न यानान् अन्नानि देव्यतयज्ञवृन्दन् देवत्रादि राशपुंशस्य महिमानमेषाम् उभयानि हव्यान्यश्चनामोताः प्राचीनम् बलिः प्रतिशा पृथिव्याः वस्तोरस्या देवेभ्यो अधिया विश्रयन्ताम् अतिभ्यो नगरे शुम्भमाना देवी द्वारो बृहदीर्विश्वमिन्वाः देवेभ्यो भवयन्ति तदेव पागे सुन्योनुः दिव्ये योषिणे बृहती सुक्ष्मे अतिश्रेक्ष्मदाने देव्याहोदारा प्रथमा सुवाचाः विमाना यज्ञम् प्रचोदयन्ता विदथेषु कारु प्राचीनताम् भारतीयश्वेतयन्तीश्रो देवे बहिरेदग्रोनम् सरस्वती वा पृथिवी जनित्रीक्ष विद्वान्नासमञ्जन् देवानाम्बाहवीषि मिता देवो अग्नि स्वदन्तु हव्यम् अधुना सद्यो जातव्यममित यज्ञम् अग्निर्देवानामगवत्पुरोगाः अस्य होदस्य वाजी स्वाहासम्परिणीयते देवो देवेषु यज्ञः परित्रविष्ट्यम् ी देवो देवेभ्यव्यवानः सेनाभिकल्पमानः यज्ञस्यायुः प्रतिरन्न देवेभ्यः दैव्याश्विता उदभविम्भ्याम्भरता स्त्री माता मन्यताम् अनुभिधा अनुभ्रादासगर्भ्यः अनुसधासयोत् सौर्यम् चमयतात् पादम् प्राणमन्वसृतात् शरीरम् एकदास्यत्वजमाक्ष्यतात् प्राणाभ्यापितमुख्यदतात् स्य वक्षकृतात् शाबाहुः शलादोषिणी तस्य वैवागुंसा कच्छिद्रे श्रोणी कवशोरोपन्नाष्टीवन्ता षड्विकुंशतिरस्य मन्त्रयः सा अनुश्चाच्च्यावयतात् गात्रम् गात्रमस्याणम् कृणतात् अवचगो हम् बातेन कथादः अस्मारक्षससंसुजदाग परिष्टमस्य मादाविष्टं रोगं मन्यमानाः नेद्वस्तोकेदनये अवितारवच्छमिदारः अथृगोशमेद्म सुसुग्रसिमेद्म सिमेद्यमद्रिगो अथृविष्टा भावश्च उभो देवानां सुतारो उ तावन्न्दशक्कृश्रवैदान प्रविग्लांसौ अथायथा स्वश्रवणं तथा तथा तथा स्वकः प्रस्तनं अथ देवस्वस्तनं हव्याजुश्वानहासनि किमन्नो यज्ञमृते स्तोकानामोदः प्राशानप्रथमो निषद्यावगते स्तोकास्तोतम् देववीदये श्रेष्ठन्नो देहिवार्यम्भ्यग्स्तोकाभृतश्चितः अज्ञेऽभिप्रायसञ्ज्रेष्ठस्य प्रापिता भव तुभ्यग्स्तोतम् युद्धिजीवः भानुनागा भृतम् प्रदेन्दतामे स्तोतन्त्रिदेवसोभिः सुष्मैः इन्द्रयातन्नमोऽभिरग्ने अर्वागुरुधोभिरकवेभिरिन्द्रा अग्ने अस्मे भवदमुत्तमेभिः क्षम् होदायक्षदन्द्राज्ञी प्रोडासस्य विषयदागोहवि होदल्यजा पामीडतेय हविष्मन्तो होदायक्षम्नाथमानागो शक्तेर्नु यच्छमानाग्निभ्याङ्कम् मृषणो वदन्ति उपस्थेंसुंसुषिन्थमन् देवयन्तः श्रवस्य ृष्टौ वर्धन्त्यक्षयः पृथिव्याम् त्वयभयासौ जनानाम् त्वम् राता पिता माता सप्रियो समिन्मानुषाणाम् स वर्येण्यः स प्रियो विश्वज्ञन्द्रो निषदाीयान्नायन्तरोचनेन वेदीषणमिषयन्दम् पावकम् कायन्दग्नीतः तस्माहु देमहि महे विधे ने समिधोदहव्यैः वेदी सुनोदः सो गीद्भिरुक्षैः आते भद्रायामसुमतोभासा श्रवोभिश्चत्रः बृहद्भिर्वाजे स्थविरेभिरस्मे ेखा तस्मै श्रुतानि सन्तुधात्वायासुता सन्ति सूर्यस्य ्यवसप्रथमानाम् समक्षराद्व्याणाम् अग्निष्वात्तानाम् पीवोपवसनानाम् उत्सातः अङ्गादङ्गादवत्तानाम् परेवेन्द्राज्ञी विषेकागोहविः हवी प्रदस्य नि तत्रैतम् प्रस्तुत्य भयार्थ देव नमश्चपनां आम्प्रियादामानि यक्षलज्ञेय भगवप्रियादामानि यक्षसंमहिमानं आयन्तामे जायसा प्रमोदगतराजदेदाह असदगं हवि ओतरीले अपो हयत् विलधं बाजिनोगो गीतर्वप्र प्रमुदिविचमाना अरवन्दोमेष्ठान्यक्षमानः नागनिजो दुरस्ते अनस्प्रज्ञेर विहाय विदाय नि ीरम् वीरैरुक्त्वा प्रभ्रियेतान्यान्यायीष्मता देवेर्द्वारः सङ्घाते ध्रुवा देवहूतो वत्सैवे मानवजातोमैनार्वा रेणुकेव देवी पुषासानक्तास्मिन् यज्ञे प्रयज्ञः वेदामपि नोनन्दैवेशक्प्रायासिष्ठागोप्रीदेशेन वीतान्विदा देवी ञ्जलीता रामे राहताञ्जल देवेष्टस्य स्वस्तिस्नो देवीरणा सरस्वती भारते यज्ञं भरत्यर्क्ये रस्तु सत्रस्य देवगौरत्रे यत्नमावेदे हे वेडा यावसमत्याददमादम्भे मोसुनेव देहेस्य विन्दुयदा देवो नरराजकुंष्टस्य चिरुषास नक्षस्य नमेण कंस्ट्रुष्टा आदितृसहस्रमेम प्रवहन्दि मित्रावरणेदस्य आक्रमर्हो प्रोक्तो स्तोत्रमश्नाथर्यवम वसनेव देहेस्य वेदविज ेवम्नामप्रच्युदन्धरणम् पुरस्पर्हीवस्य वेदुर त्रविणा एवम् बहिः सुवने वृधेयस्य मेतो देवीर्द्वारः सुवनेऽेयस्य वियन्तु देवी विषासान असुमने वृषी सवीताम् देवीज्योष्ठी असुवने वृषेश्व वीताम् देवी ऊर्जाहुदी असुवने वृषेश्व व्याहोदारा असुवने वृषैश्च वीताम् देवीस्तिस्रो देवी असुवने वृषेश्व तिस्ट्र, देवो न राशकुंसः वसुवने वृषेहस्य देवो वनस्पतिः असुवने वृषेहिस्य वेदो देवम् बर्हिर्वारिदीनाम् स्य वेदो देवो अग्निस्पृष्टि शुद्रविना मन्द्रः कविः सत्यमन्माय जीहोता श्रोत्रहोत्राय जीयान् अग्नेयान् देवानयाड यागो अभिप्रेः हे देहोत्रे होत्राम् हो भवान् दिवि देवे शैत्यमेव सुमने वादेवी अग्निवत्यम्भक्तेः पजं कुरोडाजिं वक्दन्निन्द्राग्निभ्यागेवानस्पतिन्द्राग्निभ्यां छ्यागेनागस्थान्तर्यायश्चेवादेवस्तान्यस्मात् भद्रवाच्याय प्रेषितो मानुषसोक्तवाकाय सोक्ता ब्रूहि इति तृतीयाष्टके षष्ठः प्रश्नः समाप्तः